अथ सप्तविंशः सर्गः खरन्तु रामाभिमुखम् प्रयान्तम् वाहिनीपतिः राक्षसस्त्रिशिरा नाम सन्निपत्येदमब्रवीत् माम् नियोजय विक्रान्तम् त्वम् निवर्तस्व साहसात् पश्य रामम् महाबाहुम् संयुगे विनिपातितम् प्रतिजानामि ते चाहमालभे यथा रामम् वधिष्यामि वधार्हम् सर्वरक्षसा अहम् वास्य रणे मृत्युरेश वा समरे मम विनिवर्त्यरणोत्साहम् मुहूर्तम् प्राश्निको भव प्रहृष्टो वा रामे जनस्थानं प्रयास्यसि मयि वा निहते रामम् संयुगाय प्रयास्यसि खरस्त्रिशिरसा मृत्युलोभात् प्रसादितः गच्छ युध्येऽत्यनुज्ञातो राघवाभिमुखो ययौ त्रिशिरास्तु रथेनैव वाजियुक्तेन भास्वता अभ्यद्रवद्रणे रामम् त्रिशृङ्ग इव पर्वतः शरधारासमूहान् स महामेघ इवोत्सृजन् यथृजत्सदृशम् नादम् जलार्द्रस्येव दुन्दुभेः आगच्छन्तम् त्रिशिरसम् राक्षसम्प्रेक्ष्य राघवः धनुषा प्रति जग्राहविधन् वन्साय काञ्चितान् स सम्प्रहारस्तु मुलो राम त्रिशिरसोऽस्तदा अहो विक्रमशूरस्य पुष्पैरिव शरैर्योऽहम् ललाटेऽस्मि परिक्षतः ममापि प्रतिगृह्णीष्वशरांश्चापगुणाच्युतान् एवमुक्त्वा सुसंरब्धः शरा नाशीविशोपमान् त्रिशिरो वक्षसि क्रुद्धो निजगानचतुर्दश चतुर्भ्यस्तुरगानस्य सन्नतपर्वभिः न्यपातयत तेजस्वी चतुरस्तस्य वाजिनः अष्टभिः सायकैः सूतम् रथोपस्थेऽन्यपातयत् रामश्चिच्छेदबाणेन ध्वजम् चास्य समुच्छ्रितम् ततो हतरथा तस्मादुत्पतम् तम् निशाचरम् चिच्छेद रामस्तम् बाणैर्हृदये सोऽभवज्जडः सायकैश्चाप्रमेयात्मा सामर्शस्तस्य शिरांस्य पातयत्रीणि वेगवद्भिस्त्रिभिः शरैः सधोमशोणितोद्गारी रामबाणाभिपीडितः न्यपतत्पतितैः पूर्वम् समरस्थो निशाचरः हतशेषास्ततो भग्ना राक्षसाः खरसंश्रयाः द्रवन्ति स्म न तिष्ठन्ति व्याघ्रत्रस्ता मृगा इव तान् खरो दृष्ट्वा निवर्त्यरुषितस्त्वरन् राममेवाभिरुद्राव राहुश्चन्द्रमसंयथा इत्यादर्शे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे सप्तविंशः